तैत्रयोपनिषद्वतीयब्रह्मानन्दवल्ली श्रीगुरुभ्यो नमः हरिः ॐ सहना भवतु सह नो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधितमस्तु मा विद्विषावहै ॐ शान्ते शान्ते शान्तिः हरिः ॐ ब्रह्मविदा आप्नोति परमम् तदेशाभियुक्ता सत्यं ज्ञानमनन्तं ब्रह्मा यो वेदनिहितं गुहायां परमे यो मन् सोऽश्नुते सर्वान् कामांस ब्रह्मणा विपश्चितीति तस्माद्वा एतस्मादात्मन् आकाशस्वम्भूतः आकाशाद्वायुः वायोरग्निः अग्निरापः अभ्यपृथिवी पृथिव्या ओषधयः ओषधीवस्योन्नम् अन्नात्पुरुषः तवा एष पुरुषोन्नरसमयः तस्येदमे वशिरः अयम् दक्षिणपक्षः अयमुत्तरपक्षः अयमात्मा इदं पृच्छं प्रतिष्ठा तदप्येष श्लोको भवति अन्नाद्वै प्रजा प्रजायन्ते या काश्च पृथ्वी श्रिताः अथो अन्ने नैव जीवन्ति अथैनदपि अन्त्यन्ततः अन्नगम्भिभूतानां ज्येष्ठम् तस्मा सर्वौषधमुच्यते सर्वं वैतेन्नं मन्माप्नुवन्ति येन्नं ब्रह्मोपासते अन्नगम्भिभूतानां ज्येष्ठम् तस्मा सर्वौषधमुच्यते अन्नाभूतानि जायन्ते जातान्येन वर्धन्ते अद्यतेति च भूतानि तस्मादन्नं तदुच्यत इति तस्माद्वा एतस्मादन्नरसमयान् अन्योऽन्तर आत्मा आणमयः तेनै स पूर्णः स एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयं पुरुषविधः तस्य प्राण एव शिरः यानो दक्षिणपक्षः अपान उत्तरपक्षः आकाश आत्मा पृथ्वी पुच्छं प्रतिष्ठाम् तदपि स श्लोको भवति प्राणं देवा अनुप्राणन्ति मनुष्या आपसवश्च ये प्राणो हि भूता नामायुः तस्मायुषमुच्यते सर्वमेव तन् आयुर्यन्ते ये प्राणम् ब्रह्मोपासते प्राणो हि भूता तस्मा तस्मात् सर्वायुसमुच्यत इति तस्यैष एव शारीर आत्मा य पूर्वस्य तस्माद्वा एतस्मा आमयान् अन्योऽन्तर आत्मा तेनै स पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयं पुरुषविधः तस्य यजुरेवशिरः ऋग्दक्षिणपक्षः स्वामोत्तरपक्षः आदेश आत्मा अथर्वाङ्गिरसपुच्छम् प्रतिष्ठां तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेति कदाच तस्यैष एव शारीर आत्मा य पूर्वस्य तस्माद्वा एतस्मान् मनोमयाम् अन्योऽन्तर आत्मा विज्ञानमयः तेनैष पूर्णः तवा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य श्रद्धैव शिरः ऋतं दक्षिणपक्षः सत्यमुत्तरपक्षः योग आत्मा महापुच्छम् प्रतिष्ठाम् तदप्तेष श्लोको भवति वैज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च विज्ञानं देवाः सर्वे एवं ब्रह्मज्येष्ठमुपासते विज्ञानं ब्रह्म चेद्वेदं तस्मात् तेन्न शरीरे पाप्मनो हेत्वा सर्वान् कामान् समश्नुत इति तस्यै स एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्माद्विज्ञानमयाम् अन्योऽन्तर आत्मानन्दमयः तेनै स पूर्णः स वा एष पुरुषविध एव सश्च पुरुषविधताम् अन्वयं पुरुषविधः तस्य प्रियमेव शिरः मोदो दक्षिणपक्षः प्रमोद उत्तरपक्षः आनन्द आत्मा ब्रह्मकोच्चम् प्रतिष्ठाम् भवति अषण्डेव भवति अथद् ब्रह्मेति वेद चेन् अस्ति ब्रह्मेति चेद्भेद संतमेनं ततो विदुरिति तस्यैष एव शारीर आत्मा य पूर्वस्य अथातो प्रश्नाः उत विद्वानमं लोकं प्रेत्य कश्चन गच्छति आहो विद्वान्नमुं लोकं प्रीत्य कश्चित् समश्नुता शोकामयत बहुश्यां प्रजा येजेति सतपोतप्यत सतपस्तप्त्वाम् इदगं सर्वमसृजत यदीदं यदिदं किञ्च तसृष्ट्वा तदेवानुप्राविशत तदनुप्रविश्य सत्यतच्चाभवत् निरुक्तं च निरुक्तं च निलयनं च निलयनं च विज्ञानं च विज्ञानं च सत्यम् चानृतम् च सत्यमभवत् यदिदम् किञ्च तत्सत्यमित्याचक्षते तदप्येष श्लोको भवति असद्वा इदमग्र आसीत् ततो वै सदजायत तदात्मानगम् स्वयम् अकुरुत तस्मात् तत् सुकृतमुच्यत इति यद्वैतस्सुकृतम् रसो सह रसज्ञम् सेवायं लब्ध्वानन्दी भवति को हेवा आन्यात् को हेवाण्यात् कप्राण्यात् यदि आकाश आनन्दो न एष हेवानन्दयाति यदा शेवैस एतस्मिन् दृश्येनात्मे निरुक्ते निलयने भयं प्रतिष्ठां विन्दते भयं गतो भवति यदा शेवै स एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति तत्रैव भयं विदुषो मन्वानश्च तदप्येष श्लोको भवति भीषास्माद्वातः पवति भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति शैशानन्दस्य मीमा गंसा भवति युवास्याधि आशिष्ठो दृणिष्ठो बलिष्ठः तस्येयं पृथिवी सर्वा वेत्तश्च पूर्णा स्यात् स एको मानुष आनन्दः ते ये सतं मानुषानानन्दाः स एको मनुष्यगन्धर्वाणामानन्दः त्रोत्रियस्य चाकामहतस्य तेजे सतं मनुष्यगन्धर्वाणामानन्दा सैकोदेवगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य तेजे सतं देवगन्धर्वाणामानन्दा सैकपितृणां तिरलोकलोकानामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं पितॄणां त्रिलोकलोकानामानन्दा स एक आजानजानां देवानामानन्दः श्रोत्रियस्य च कामहतस्य ते ये शतमाजानजानां देवानामानन्दा स एककर्मदेवानां देवानामानन्दः ये कर्मणा देवानपि यन्ति त्रोत्रियस्य चाकामहतस्य तेजे सतं कर्मदेवानां देवानामानन्दा स एको देवानामानन्दः त्रोत्रियस्य चकामहतस्य तेजे शतं देवानामानन्दाः स एक इन्द्रस्यानन्दः त्रोत्रियस्य चाकामहतस्य तेजे शतमिन्द्रस्यानन्दाः स एको बृहस्पतेरानन्दः श्रोत्रियस्य चाकामहतस्य तेजे शतं बृहस्पतेरानन्दाः स एकप्रजापतेरानन्दः श्रोत्रियस्य चकामहतस्य ते ये शतं प्रजापतेरानन्दा स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य तयश्चायं पुरुषे यश्चासाबाधिते षय एवम्वितम् अस्मान् लोकात् प्रेत्य एतमन्नमयमात्मानमुपसङ्क्रामति एतं प्राणमयमात्मानमुपसङ्क्रामति एतं मनोमयमात्मानमुपसङ्क्रामति एतं विज्ञानमयमात्मानमुपसङ्क्रामति एतमानन्दमयमात्मानमुपसङ्क्रामति तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान् न विभेति नेति एतः गम्भवा न नतपति किमहगं किमहं साधुनाकरवं किमहं पापमकरवमिति स एवं विद्वानेति आत्मानग्रं शृणुते उभेये वै स एते आत्मानग्रं शृणुते य एवं वेद इत्युपनिषत् ॐ सहना भवतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधितमस्तु मा विद्विचावहैः ॐ शान्ति शान्ति शान्तिः हरिः ॐ तस्य श्रीरामकृष्णार्पणमस्तु